श्रीमद्भागवत्मण नवस्कंध अथ तयवश्याय अनुष्युर्वसुर्जुकशुका वर्णन शेषोकुवाच अन्न सभानक्षु पर सभानर काल नर श्रीअयतः जन्मे जय तस्य पुत्रो महाशीरो महामनाः उशीनरस्तितिक्षुश्च महामनस आत्मजौ शिभिर्वलं शमिदक्ष चत्वारोषी नरात्मजाः दिशादर्भसुवीरश्च भद्रकैकेय आत्मजाः शिवेश्चत्वार एवासन् स्थितिक्षोश्च दशद्रथा रुद्र रुशद्रथ ततो हेमूथ सुतपा बलिसुतं पशोभवत् अङ्गमङ्गकालिङ्गाद्यासं सुह्य पुण्ड्रान्तसंज्ञिताः जग्रे दीर्घतमसो बले क्षेत्रे महीक्षितः चक्रोष्वनाम्नाविषयान् षडिमान् प्राचकांश्च ते खलपानो गतो जज्ञे तस्माद् दिवि रथस्ततः सुतो धर्मर्थो यस्य जग्ये चित्ररथो प्रजाः रोमपाद इति ख्यातस्तस्मै दशरथसखा शान्तां सुकन्यां प्रायक्षं दृश्यशिङ्ग उवाहतां देवे वर्षति यं रामा अनिन्यो अनिन्योर्हरिणीशतं नाट्यसङ्गीतवादित्रये विभ्रमालिङ्गनार्भे स तु राज्ञो न पत्यस्य निरूप्येष्टिं मरुत्वतः तजमदाद् दशरथो येन लेभे प्रजा प्रजाः चतुरङ्गोरोपादात् ऋशुलाक्षस्तुतस्तुतः दृहद्रथो बृहत्कर्मा बृहद्भानोश्च तस्तुताः आद्याद्य उदासितः विजयन्तस्य सम्भुत्यां ततो धृतिर्जायुत ततो धृतमृतस्तस्य तत्कर्माधिरतस्ततः जोसौ गङ्गातटे क्रीडन् मञ्जुषान्तर्गतं शिशुं कुत्यापविद्धं काणिनम् अनपत्यो करोसुतं वृषिषेण सुतस्तस्य करणस्य जगति द्रुह्योश्च तनयो बभ्रूसेतुस्तस्यात्मजस्ततः आरब्धस्तस्य गान्धार तस्य धर्मसतोधितः धितस्य दुर्मनास्तस्मात् प्रचेता प्राचते संसतं व्रेक्षाधिपतयो भूवन्नदिं च समाश्रिताः तुर्वसोऽश्च सुतो वह्निर्बन्धिर्भरगोथभानुमान् त्रिभानुस्तस्यतोस्यापि उदारधी, उदारधि वर्तस्तस्यतो पुत्रपुत्रं पौरवमन्नधुर् दुश्यन्त स वंशं राजकामुकः जयातेजेषपुत्रस्य यदुर्वंशं न ऋषभ वर्णयामि महापुण्यं सर्वपापहरं नृणां यदुर्वंशं नरः श्रुत्वा सर्वपापैः यत्रावते नो भगवान् परमात्मा नराकृतिः जदौ सहस्रजित्कोष्ठा नलोरिपुरिति श्रुताः चत्वारसूनवस्तत्र सज्जित प्रसमात्मजः महाहयो वेणुभयो हैः अश्चेति है तत्सुताः धर्मस्तु हैः है सुतो नेत्र कुन्तेऽपिता ततः सोऽहं धीरभवत्कुन्ते नहि स्मान भद्रसेनक दुर्मदो भद्रसेनस्य धनककृतवीर्यसो चिताग्निकृतवर्मा च कृतौ जां धनकात्मजा अर्जुनकृतवीर्यस्य सप्तद्वीपेश्वरो भवन् दत्तात्रेयाद्धरेरंसा प्राप्तयोगमहागुणः नानूनं कार्तवीर्यस्य पार्थिवाः यज्ञदानतपो पञ्चाशीतिसहस्राणि हव्याहतबलशपाः अनष्टभित्तस्मरणो बुभुजे क्षय्य षड्वसु तस्य पुत्र सहस्रेषु पञ्चैवोर्वरिता मृदे जयध्वजसूरसेनो भृचभो मधुरूर्जितः जयध्वजात् तालजङ्घ तस्य पुत्रशतं तभोत् छत्रं यत्तालजङ्घाख्यम् और्वतेजोपसंहृतं ज्येष्ठां ज्येष्ठो वीतिहोत्रो विष्णुपुत्रो मग् मधु स्मितः तस्य पुत्र सतं त्वासीद्विष्णुज्येष्ठं यत् कुलम् माधवा विष्णयो राजन् यादवास्येति संहिताः यदुपुत्रस्य च कोष्ठो पुत्रो वृजनुमास्ततः स्वाहितस्ततो रूषे कुर्वैतस्य चित्रथस्ततः शशबिन्दुर्महायोगी महाभोजो महानभो चतुर्दशमहारत्नचक्रवर्त्य पराजितः तस्य पत्नीसहस्राणां दशानां शूं महायशा दशलक्षसहस्राणि पुत्राणां तासु जी जनन् तेषां तु षट्प्रधानानां पृथुस्रवसम् आत्मजः धर्मो नामोशना तस्य हैमेध सदस्य याट् तस्य तौ रुचुकस्यास्तस्य पञ्चासन्नात्मजाशिणो पुरजेन्द्रुक्मं रुक्म रुक्मेषु पृथ्युज्यामघं संहिताः ज्यामघं ज्या त्वप्रजोप्यन्यां भार्यां सैब्या पतिर्भयात् कन्यामहारसे रसस्थां तां निरीक्षाः सैब्या केयं कुहकुमस्थानं रसमारोपितेति वै सुसातवेत्यभीते स्मयन्तीं पतिम् अब्रवीत् अहं वन्ध्या सपत्नी च स्नुषा मे योज्यते कथं जनिष्यथयं राज्ञी तस्येयमुपयुज्यते अन्वमोदन्त तद्विश्वे देवापितरेव च सेव्या गर्भमधात्काले कुमारं शुशुभे शुभम् स इति प्रोक्त उपये मे स्नुतां सतिं हि महापुराणे पारहिंसां चयितायां नं स्कन्धे नेत्रयो त्रयोविंशोऽध्यायः